ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 55 फैव् सागरोपाख्यानं राज्यप्राप्ति अभिनन्द्या शिशात्यर्थं लालयन् प्रशशंसः अधृत्विक्सदस्यैश्च सहिदो राजसत्तमः उपा क्रमततं यज्ञे विधिवद्वेदभारकैः ततः प्रववृदे यज्ञ सर्वसम्पद्गुणान्वितः सम्यग्गौर्ववसिष्ठाद्यैर्मुनिभिस्सम्प्रवर्तितः हिरण्मयमयि वेदि पात्राण्युच्चावचानि च सुसमृद्धं यथा शास्त्रं यज्ञे सर्वं बभूवः एवं प्रवर्तितं यज्ञमृत्विज सर्व एव ते क्रमात् समापयामासुर्यजमानपुरःसराः समापयित्वा तं यज्ञं राजा विधिविदाम्बरः यथावद्दक्षिणां चैव ऋत्विजा प्रददौ तदा अधऋत्विक्सदस्यानां ब्राह्मणानां तथार्थिनां तत्काङ्क्षितादभ्यधिकं प्रददौ वसु सर्वशः एवं सन्दर्प्यविप्रादेक्षिणाभिर्यथाक्रमम् क्षमापयामास गुरोन् सदस्यान् प्रणिपत्यच च ब्राह्मणाद्यायस्ततो वर्णाय ऋत्विग्भिश्च समन्वितः वारकीया कदम्बैश्च सुदमागधवन्दिभिः अन्वीयमानश्रीकश्वेदच्छत्र विराजितः दोधूयमानचमरो वालव्यजनराजितः नानावादित्रनिर्घोषैर्बधरीकृतदिङ्मुखः सगत्वा सरयूतीरं सरयुतीरं यथा शास्त्रं यथा विधि चकारावभृधस्नानं मुदिदसह बन्धुभिः एवं स्नात्वा सपत्नीकसुहृद्भिर्ब्राह्मणैः सह वीणा वेणुमृदङ्गादिनावादित्रनिस्वनैः मङ्गल्यैर्वेदघोषैश्च सह विप्रजनेरितैः संस्तूयमानः परिदसूदमागतबन्धिभिः प्रविवेशपुरीं भ्रम्यां हृष्ट पुष्ट जनायुधं स्वेदव्यजन सच्छत्र पताकाध्वजमालिनीं सिक्तसम्मृष्टभूभागापणशोभासमन्वितां कैलासाद्रिप्रकाशाभिरुज्वलां सौध पंक्ति तरधूपोदी दिमुख विगीय पिध पौर नारी जनर्मुहु लाजवर्षेण सानंदम वीक्षाण नागर उपदाने त्र वणिजन सम्भाव्यमानशनकैर्जगामस्वपुरं प्रति सप्रविश्य गृहं रम्यं सर्वमण्डलमण्डितं सम्यक् सम्भावयामास सुहृदो ब्राह्मणानभि संसेव्यमानश्च तदा नानादेशेश्वरैर्नृपैः सभायां राजशार्दूलो रेमे शक्र इवापरः एवं सुहृद्भिसहितः पूरयित्वा मनोरथं सगरस्सहभार्याभ्यां रेमे नृपवरोत्तमः अंशुमन्दं ततः मुदा विनयशालिनं वसिष्ठ ष्ठानुमते राजा यौवराज्येभ्यशेषयद पौरजानपदानां तु बन्धूनां सुहृदामपि सप्रियो भवदत्यर्थमुदारैश्च गुणैर्नृपः प्रजास्तमन्वरज्यन्तबालमप्यमितौजस्सं नवं च शुक्लपक्षाद्दौ सीतांशुमचिरोदितं स तेन सहितश्रीमान् सुदृग् नृपोत्तमः भार्याभ्यामनुरूपाभ्यां रममाणो वसचिरं। युवैव राजशार्दूलसाक्षाद्धर्म इवापरः पालयामास वसुधां सशैलवनकाननाम् एवं महानहिमदीधिवंशमौलिरत्नायमानवपुरुत्तरकोसलेशः पूर्णेन्दुवत्सकलोगमनोऽभिरामः सार्धप्रजाभिरखिलाभिरलं जहर्ष इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सागरोपाख्यानेषु मतो राज्यप्राप्तिर्नाम पञ्च पञ्चशततमोऽध्यायः ॐ